अण्डानि बिभ्रति स्वानि न भिन्दति पिपीलकाः न भरेथाः कथम् नु त्वम् धर्मज्ञः सन्स्वमात्मजम् ममाण्डानीति वर्धन्ते कोकिलानपि वायसाः किम् पुनस्त्वम् न मन्येथाः सर्वज्ञः पुत्रमीदृशम् वदन्ति वै शिशोरालिङ्ग्यमानस्य चन्दनादधिकम् भवेत् न वाससाम् न रामाणाम् नापाम् स्पर्शस्तथाविधः सुखः ब्राह्मणो द्विपदाम् श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् गुरुर्गरीयसाम् श्रेष्ठः पुत्रः वरः स्पृशतु त्वाम् पुत्रोऽयम् प्रियदर्शनः पुत्रस्पर्शात् सुखतरः स्पर्शो लोकेन विद्यते त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिन्दम इमम् कुमारम् राजेन्द्र तव शोकविनाशनम् आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव इति ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरम् गताः मूर्ध्निपुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः वेदेष्वपि वदन्तीमम् मन्त्रग्रामम् द्विजातयः जातकर्मणि पुत्राणाम् तवापि विदितम् तथा अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे आत्मा वै पुत्रनामासि स जीवशरदः शतम् जीवितम् त्वदधीनम् मे सन्तानमपि चाक्षयम् तस्मात्त्वम् जीव मे पुत्र सुसुखी शरदां शतम् त्वदङ्गेभ्यः प्रसूतोऽयम् पुरुषात्पुरुषोपरः सरसीवामलेत्मानम् द्वितीयम् पश्य वै सुतम् यथा ह्याहवनीयज्ञर्गार्हपत्यात् प्रणीयते तथा त्वत्तः प्रसूतोऽयम् त्वमेकः पुरा मृगयाम् परिधावता अहमासादिता पितुराश्रमे उर्वशी पूर्वचित्तिश्च सहजन्या मेनका विश्वाची च घृताची च षडेवाप्सरसां वराः तासाम् सा मेनका नाम ब्रह्मयोनिर्वराप्सराः दिवः सम्प्राप्य जगतीम् विश्वामित्रादजीजनत् श्रीमानऋषिर्धर्मपरो वैश्वानर इवापरः ब्रह्मयो निः कुशो नाम विश्वामित्रपितामहः कुशस्य पुत्रो बलवान् कुशनाभश्च धार्मिकः गाधिस्तस्य सुतो राजन् विश्वामित्रस्तु गाधिजः एवंविधः पिता राजन्मेनका जननीवरा सा माम् प्रस्थे सुशिवे मेनकाप्सराः अवकीर्य याता परात्मजमिवा सती पक्षिणः पुण्यवन्तस्ते सहिता धर्मतस्तदा पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला ततोऽहम् ऋषिणा दृष्टा काश्यपेन महात्मना जलार्थमग्निहोत्रस्य कथम् दृष्ट्वा तु पक्षिणः न्यासभूतामिव मुनेः प्रददुर्माम् दयावतः समारणिमिवादाय स्वमाश्रममुपागमत् सा वै सम्भाविता महर्षिणा तेनैव स्वसुतेवाहम् राजन्वै परमर्षिणा विश्वामित्रसुता चाहम् वर्धिता मुनिना वर्तमानाञ्च दृष्टवानसिमाम् नृप आश्रमे पर्णशालायाम् कुमारीम् विजने वने धात्रा प्रचोदिताम् शून्ये पित्रा विरहिताम् मिथः वाग्भिस्त्वम् सूनृताभिर्मामपत्यार्थमचूचुदः अकार्षीस्त्वाश्रमेवासम् धर्मकामार्थनिश्चितम् गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः साहङ्कुलम् च शीलम् च सत्यवादित्वमात्मनः स्वधर्मम् च पुरस्कृत्य त्वामद्य शरणम् गता तस्मान्नार्हसि संश्रुत्य तथेति वितथम् वचः स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् त्वन्नाथाम् लोकनाथस्त्वम् नार्हसि त्वमनागसम् किम् नु कर्माशुभम् पूर्वम् कृतवत्यन्यजन्मनि यदहम् बान्धवैस्त्यक्ता बाल्ये संप्रतिचत्वया। च त्वया परित्यक्ता कमिष्यामि स्वमाश्रमम् इमम् तु बालम् सम् त्यक्तुम् नार्हस्यात्मजमात्मनः दुष्यन्तौ उवाच न पुत्रमभिजानामि त्वयि जातम् शकुन्तले असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः मेनकानिरनुक्रोशा बन्धकी जननी तव ययाहिमवतः पृष्ठे निर्माल्यमिव स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव विश्वामित्रो ब्राह्मणत्वेऽलुब्धः कामवशम् गतः मेनकाप्सरसाम् श्रेष्ठा महर्षीणाम् पिता च ते तयोरपत्यम् कस्मात् त्वम् पुंश्चलीव प्रभाषसे अश्रद्धेयमिदम् न लज्जसे विशेषतो मत्सकाशे दुष्टतापसि क्व महर्षिः स चैवाग्र्यः साप्सराः क्व च कृपणा तापसी वेषधारिणी पुत्रो बालोति बलवानयम् कथमल्पेन कालेन शालस्तम्भ इवोद्गतः सुनिकृष्टा च योनिः पुंसली व प्रभाषसेदुया कामरागाज्जाता मेन क्या हसी मे यम वदसीतापसि नाहं झेष्ट गम्यता शकुंतलोवाच राजर्षपत्र पिछिद्रा पश्यसी आत्मनो बिल्व पश्य न पश्यसी मेनका त्रिदशेष्वेव त्रिदशाश्चानुमेनकाम् ममैवोदृच्यते जन्म दुष्यन्त तव जन्मनः क्षितावटसि राजेन्द्र अन्तरिक्षे च राम्यहम् आवयोरन्तरम् पश्य मेरुसर्षपयोरिव महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च भवनान्यनुसंयामि प्रभावम् पश्य मे नृप सत्यश्चापि प्रवादोऽयम् यम् प्रवक्ष्यामि तेन घ न द्वेषाच्छ्रुत्वा तम् क्षन्तुमर्हसि विरूपो यावदादर्शेनात्मनः पश्यते मुखम् मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् यदा स्वमुखमादर्शे विकृतम् सोऽभिवीक्षते तदातर विजानीते आत्मानम चेतरम जनम अतीव न कंचिदमे अतीव जल्पन दुर्वाचो भवती हिेठक मूर्खो जल्पतां पुंसा श्रुवा वाच शुभाशुभा अशुभम वाक्यदत्ीशिवूक प्राज्ञस्तु जल्पताम् पुम्साम् श्रुत्वा वाचः शुभाशुभाः गुणवत् वाक्यमादत्ते हंसक्षीरमिवाम्भसः अन्यान्परिवदन् साधुर्यथा हि परितप्यते तथा परिवदन्नन्यान्स्तुष्टो भवति दुर्जनः अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् एवम् सज्जनमाकृष्य मूर्खो भवति निर्वृतः सुखम् जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् अतो हास्यतरम् लोके किञ्चिदन्यन्न विद्यते यत्र दुर्जनमित्याह दुर्जनः सज्जनम् स्वयम् सत्यधर्मच्युतात्पुंसः क्रुद्धा दाशीविषादिव अनास्तिप्युद्विजते जन किनरास्कुत् वै पुत्र सदृशम यौन मनते तरश्रियनती न लोकानुप्नुते कुलवंश प्रतिष्ठा पुत्रब्रुवन उत्तम सर्वर्माण तस्मापुत्र न सन्तजे स्वपत्नी प्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान् कृतानन्यासु चोत्पन्नान् पुत्रान् वै मनुरब्रवीत् धर्मकीर्त्यावहान् ऋणाम् मनसः प्रीतिवर्धनाः त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् सत्त्वम् नृपतिशार्दूल पुत्रम् न त्यक्तुमर्हसि आत्मानम् सत्यधर्मौ च पालयन् पृथिवीपते नरेन्द्रसिंहकपटम् न वोढुम् त्वमिहार्हसि वरम् कूपशताद्वापि वरम् वापि शतात्क्रतुः वरम् क्रतुशतात्पुत्रः क्रतु सत्यम् पुत्रशताद् च सत्यम् चतुलयाद्धृतम् अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते सर्ववेदाधिगमनम् सर्वतीर्थावगाहनम् सत्यम् च वचनम् राजन् समम् वा स्यान्न वा समम् नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् न हि तीव्रतरम् किञ्चिदनुतादिह विद्यते राजन् सत्यम् राजन् सत्यम् सङ्गतमस्तु ते अनृते चेत्प्रसङ्गस्ते श्रद्धधासिन चेत् स्वयम् आत्मना गच्छामि त्वादृशो नास्ति सङ्गतम् पुत्रत्वे शङ्कमानस्य बुद्धिर्ज्ञापकदीपना गतिस्वरः स्मृतिः सत्त्वम् शीलविज्ञानविक्रमाः धृष्णुप्रकृतिभावौ च आवर्तारोम राजयः तस्य पुत्रो न संशयः सादृश्येनोद्धृतम् बिम्बम् तव देहाद्विषाम् तातेति भाषमानं वै मा स्मराजन्वृथा क्रुधाः त्वाम् ऋतेऽपि हि दुष्यन्त शैलराजवतम् सकाम् मामुर्वी पुत्रो मे पालयिष्यति शकुन्तले तव भविष्यति एवमुक्तो महेन्द्रेण भविष्यति न चान्यथा साक्षित्वे बहवोऽप्युक्ता देवदूतादयो मताः न ब्रुवन्ति यथा सत्यमुताहोऽप्यनृतम् किल असाक्षिणी मन्दभाग्या गमिष्यामि यथागतम्